्युवाच एवमत्यस्तु धर्मज्ञा संयुज्येयं सुतेनते ते त्वद्भक्त्या तु भजिष्यामि प्रख्यातं भारतं कुलं पृथिव्यां पार्थिवायेच ये च तेषां यूयं गुणा नहि मया शक्या वक्तुं वर्षशतैरपि कुलस्य एव प्रथिताः तत्साधुत्वमथोत्तमं समये नेहधर्मज्ञा तत्सर्वमेव पुत्रस्ते नमीमांसेत कर्हि चेत् एवं वसन्ती पुत्रे ते वर्धयिष्याम्यहं प्रियैश्चैव स्वर्गम् प्राप्स्यति ते वैशंपायन वाचा उवाच तथेत्युक्ता तु सारादम् तत्रैवान्तरधीयता पुत्रजन्म प्रतीक्षन् वै स राजा तदधारयत् एतस्मिन्नेव काले तु प्रतीपक्षत्रियर्षभः तपस्तेपे सुतस्यार्थे स भार्यः कुरु नन्दन प्रतीपस्य भार्यायां गर्भश्रीमानवर्धता श्रिया परमया युक्तः ततस्तु दशमे मासि प्राजायतरविप्रभं कुमारं देवगर्भाभं प्रतीपमहिषी तयो समभवत्पुत्रो बृद्धयो स शांतस्य शान्तस्य संतानह, सन्तानः कस्मादासीत् स कृत्यानि प्रतीपो कारयत्प्रभुः जातकर्मादिविप्रेण वेदोक्तैः कर्मभिस्तदा नामकर्म च विप्रास्तो चक्रुः परमसत्कृतं शान्तनोरवनील वेदोक्तैः कर्मभिस्तदा ततः राजा शान्तनुर्लोकपालकः सतुलेभे परां निष्ठां प्राप्य धर्मविदाम्बरः धनुर्वेदे गतिं स यौवनं चापि सम्प्राप्तः संस्मरंश्चाक्षयान् लोकान् विजातान् स्वेन कर्मणा पुण्यकर्म कृसीत् शान्तनुः कुरु सप्तमः पुत्रं यौवनस्थं ततोऽन्वशात् पुरा स्त्रीमांसमभ्यागात् शन्तनो भूतये तवा त्वामाव्रजेद्यदिरहः सा पुत्रवरवर्णिनी कामायानाधिरूपाढ्या दिव्या स्त्रीपुत्रकाम्यया सा त्वयानानुयोक्तव्या कासी कस्यासि चाङ्गने यच्च कुर्या न तत्कर्म सा